भूमिर्धेनुर्द्धरणी लोकधारिणी उद्धृता शिवराहेण कृष्णेन शतबाहुना मृत्तिके हनवे पापञ्जन्मजा मृत्तिके ए ब्रह्म दत्तासि काश्यपेनाभिमन्त्रिता मृत्तिके देहि मे पुष्टिम् त्वयि सर्वम् प्रतिष्ठितम् मृत्तिके ये प्रतिष्ठिते सर्वम् तन्मे निर्णुतमृत्तिके तजा हतेन पापेन गच्छापि परमाम् गतिम् ओम् शान्तिश्शान्तिश्शान्तिः